बहुशोडित दिग्धाङ्गो मुक्तके स्यो रजस्वलाः एवम् कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम् कृत्वा तु नैर्भृतान् दर्भान् धीरोधौम्यः पुरोहितः सामानि गायन्याम्यानि पुरतो याति भारत हतेषु भारतेष्वाचौ कुरूणाङ्गुरवस्तदा एवम् सामानि गास्यन्तीत्युक्त्वा गच्छति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 एवमाकारलिङ्गैस्ते व्यवसायम् मनोगतम् कथयन्तश्च कौण्टेया वनम् यद्मुर्मनस्विनः येवम् तेषु न राज्येषु निर्यत्सु गजसाह्वयात् अनभे विद्युतश्चासन् समकम्पत राहुरग्रसदादित्यमपर्वणि विशाम्पते उल्का चाप्यपतव्येन कृत्वा व्यशीर्यत प्रत्याहरन्ति क्रव्यादा वृद्धगोमायुवायसाः देवा देवायतनचैत्येषु प्राकाराट्टालकेषु च